हरि ओम् श्रीसीता नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे सप्तमात्र भाविन श्रीरामाभिषेकस्य उत्तमाकर्ण्य शिन्दया मन्त्रया भेदभावस्य उत्पादनम् प्रीतया कैकेय्या कुब्जायै पुरस्काररूपेण आभूषणस्य दानम् वरम् वरयितुम् प्रेरणम् यु सहोषिता प्राद चंद्र संकाश आरोह यदृचया सि राजकी कमलोत्ल अयोध्या मंथरा तस्त प्रसाद वैक्षत पता बरा ध्वज सबल सिक्तां चन्दनतोयैश्च शिरस्नात जनयुतां माल्य मोदकहस्तैश्च विजेन्द्रैभिनादिताम् शुक्लदेव गृहद्वारा सर्वभाताम् सम्प्रष्ट जनाकिरणं ब्रह्मघोष निनादिताम् प्ररुष्ट्रहत्य स्वाम् सम्प्रणादित गोवशाम् उच्च प्रमोदिते पौरैः उच्छ्रित ध्वजमरलिनीम् अयोध्यां मन्थर दृष्ट्वा परं भीष्मः सहस्रोत्फुल्लनयनां पाण्डुरक्षोमवासिनीम् अविदूरे सितां दृष्ट्वा धात्री पप्रच्छ मन्थर उत्तमे नाभि संयुक्तः हर्षेणार्थ पहसति राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति अतिमात्रं भ्रं जनस्यास्य च संसमे कारयिष्यति किं वापि सम्प्रष्टो महीपतिः विजीर्यमाणा हर्षेण धात्री तु भूयसीं राघवेश्व पुच्छेण जदक्रोधम् यौवराजेन चानघम् राजा दशरथो रामं, अभिषेक्ता हि राघवम् धात्र्यासु वचनं श्रुत्वा कुब्जाक्षि प्रमर्चिता कैलास शिखराकारात् प्रासादादवरोहत सा दह्यमाना क्रोधेन मन्थरा पापदर्शिनी शयानामेव कैकेयीम् इदं वचनमब्रवीत् उत्तिष्ठ मूढे किं शेषे भयम् त्वामभिवर्तते उपप्लुते न घोगेन नात्मानम् अवबुध्यसे अनिश्चय शुभसकारी सौभागेन विकथसे चलं हि तव सौभाग्यम् नद्या श्रोतवोष्णगे एवम् उक्ता तु कैकेयी हृष्टया पुरुषं वचः कुब्जया पापदर्शिन्या विषादम् नगमत्परम् कैकेयी तु अब्रवीत् कुब्जां कच्चिच्छे मां न मन्थरे विषण् वदताम् इम् लक्षये भृशदुःखिताम् मन्थरः तु वच कैकेय्या मधुराक्षरम् वाचे क्रोधसंयुक्ता वाक्यं वाक्य विशारदा साभिषण्ड तदा भूत्वा कुब्जा तस्यां हितैषणि प्रोवाच भेदयन्ति च राघवम् अक्षयम् सोम देवी प्रोवृत्तम् तद्विनाशनम् रामम् दशरथो युवराज्येऽभिषिक्ष्यति सास्मि गाधे भये मग्ना दुःखशोक समन्वितः दह्यमाना नलेनैव सद् हितासं ह्यागतः तव दुःखेन कैकेयी मम दुःखं महद् भवेत् सद्वृद्धो मम वृद्धि च भवेदिह न मयिषी तं महे पते उग्रम् राजधर्माणाम् कथं देवी धर्मवादी शठो भर्ता लक्षणवादी च दारुणः शुद्धभावेन जानीषे उपस्थिते अतिसन्धिताय उपस्थितय प्रयुञ्जानय त्वयि शान्तमनर्थकम् अर्थेनैवाद्यते भर्ता कौसल्यां योजयिष्यति अपवाह्य तु दुष्टात्मा भर्तं तव बन्धुषु काले स्थापयिता रामम् राज्ये नियतकण्डके चत्रोपतिप्रभावेन मात्रैव हितगाम्यया आशीविशैवाङ्गेन बाले परि धृतत्वया यथा हि कुर्यात् शत्रुर्व सर्को व प्रत्युपेक्ष सपुत्र तम तथा पापेना बाले रामं निखोचितापयता हताम कैकय क्षिप्रम कुरु दंतवुत्र मां च दर्शने मन्थराय च श्रुत्वा शयना सा शुभ न उत्तस्थु हर्ष सम्पूर्ण चन्द्रलेखेव शारदी अतैव सा तु सन्तुष्ट कैकेयी विस्मयान्विता दिव्यामाभरणं तस्यै कुब्जायै प्रदतो शुभं चत्वा तस्यै कुब्जाई प्रमदोत्तम कैकेयी मंत्रा पुनरेवा ब्रवेदी इदम तो मंथरे मह्यम आख्यात एक प्रियमाख्यात किंवा भूय करोमिते, कौमी ते रम नोपल तस्मास्त राज शिक्षति न मे परं किञ्चिदितो वरं पुनः प्रियं प्रियार्हे सुवचं वचोमृतम् तथा ह्यवच समदय प्रियोतरं वरं परं ते प्रददामि तमृणु इत्याश्री श्रीमद रामणे वल्मीकी अधिकव्यद्याकाण्डे सप्तमः सर्गः श्री सीता